द्वितीयकाण्डप्रारम्भः ओ ग् विश्वेतमानभेत भूतिकामा वायुरुवे क्षे पेष्ठा देवता वायमेव स्वेन भागे येनापथावति स देवैनं भूतिं गमयति भवत्येवातिक्षिप्रा देवतेत्याभुत्सैनमेश्वराप्रदहयेत्येतमेव सङ्गं वायवे नियुत्वस्य धृतधृत एव भूतिमुपैत्य प्रदाहाय भवय नियत्पदान भेद ग्राम गामा वायुर्वायि मा प्राणापालौ खलु वा नेतस्य प्रजाया अपक्रामतो ने प्रजा एषन् प्रजान्न विन्दते वायमेव नियत्वं तस्मै न वागधे य मापधावति तयवास्मै प्राणापालाम् विन्दते प्रजाम् वायवे नियत्वदानभेदज्जोगामया मे प्राणा वै वायव खलु वारे तस्मादपक्रामयति भायमेव नयत्वन्थस्मै नैनापधामस्मिन्भवति देवत्येव प्रजापदर्वाजमेकाधे स्वकामय तत् प्रजा पशोऽन्सृजयति स आत्मना पामुदक्षिदत्तामग्नौ तोपरः समभवत्यज्ञस्वायै देवतायालभदयतो वै स प्रजा पशूनसृजतयः प्रजागाम पशुकामस्या एतम् प्राजावत्यमजन्तो परमालभेन प्रजापतिमेव स्येन भागधे येनापधावधिवास्मै प्रजाम् पशून् प्रजनयतीश्व यत्तो परस्तदश्वान् नाङ्गलतो गन्तग्रमाङ्गलव्याय शपास्तदवे नाङ्गजस्तदजानामेतावन्तस्तान् रूपेण सोमापोष्णन् वेदमानभेदुषुका भोगौ वा अजायैस्तनौ नानैवजाय देवोर्जं पुष्टिं धृजेय सो माभूषण वेव स्वेन भागधे यै मापधावधि भावेन स्मे पशून् प्रजनयतस्वा वेले तोधाः पूषा पशूनान् प्रजनयता सोमयेवास्मै ने तोदधा पूषा पशून् प्रजनयत्यौदुम्बराजोपभवत्योर्वा उदुम्बरोर्पशरभूर्जैवास्मावोर्जम् पशून वरुंधे। जा अस्मात् सृष्टाः पराचीरा गन्ता वरुणमगच्छन्ता तथा अस्मै पुनरङ्गकशितिपादभवद्भ्यो वरुणगृहे तस्याम्बारुणङ्कृष्टमेकशितिपादमानभेदवरुणमे वस्तेन भागे कृष्ण तमसा विध्यस्तस्मै देवा प्रायश्चित्ति वैच्छन्दस्य यत् प्रथमन्तपाघ्नान् सा विष्णा विरभवत्य द्वितीय पुंसा फल्गुणीय तृतीय पुंसा बलक्षे अभ्यस्तादपाक्रन्दान् सा गर्व त्यवा अब्रुवन्देव वशुर्वायमुत्कस्मायममानप्स्यामहयेत वेदह्यल्पा पृथिव्यासीतजाता ओषध यस्तामलिं वशामादित्यभ्यःकामाया नतो वा प्रथद पृथिव्यजायन्तौषध यो यः कामयेधप्रत्ययप्रत्यया जायेतामलिं वशामादित्येभ्यःकामाया नभेतानित्यानेता का भग्यस्वेन भागधे येनापृथय प्रथयन्ति पशुभ्य प्रजया जनयन्त्य सामादित्योऽ य रोचत तस्मै देवाः प्रायश्चित्रिमेच्छन्तस्मा येतालभन्ताग्ने दृष्टन् देवेकं सगंभितामयेन्द्रेश्वेताम्बाहस्पत्यान्दाभिदेवास्मिन् ब्रह्मदत्तमस्यात्तस्माय ज्ञेये कृष्णग्रीवेगुंसगुंहिता महेन्द्रेकश्मेताहस्पत्यामेता देवदेवताश्वपधावस्मिन् ब्रह्मवर्चन्द्रिब्रह्मवर्चस्यैव भवति कृष्णग्रीवे मालभे दग्रेस्मिन् दिने सगुंहिता महेन्द्रे ेताम्बालस्पत्यान्त्री वा आदित्यश्च ते जागुम्जि वसन्ताः प्रातभ्येष्मे वध्यन्ति नेश्रव्यपराह्णे यावन् देव ते जागुम्जितान्येवावरुन्धे संवत्सरम् वर्यालभ्यन्ते संवत्सरो ब्रह्मवर्चस्य प्रदाता संवर्धन एवास्मै ब्रह्मवर्चसं प्रयच्छति ब्रह्मवर्धस्यैव भवति गर्भिण च भवन्ति वैरीन्द्रियमेवास्मिन् दधति नरस्पति मे देवानभेश्वर वाचावधितो वाचं न वधेद्वाग्भै नरस्पति नस्पति भागधे जेनोपधावति दैवास्मिन् वाचं वाच भवत्यपन्न भवति यस्मान् मनुष्याः सर्वां वादं वदन् चेयं कृष्णग्रेवमानभेदसौम्यं व्रं जगामया यज्ञं वाहेतस्य शरीरं गच्छति सौभगं रसो यस्य जोगामयत्यज्ञैरेवास्य शरीरं निष्केनादि सोमासमुदयगीरासद्भवग्रजीवदेव सौम्यं वभ्रुमानभेदाज्ञ ष्णगेवम् प्रजाकामस्वमो वैरे दोधा प्रजानाम् प्रजनयिताोमये वा स्मैरे दोदधात्यद्यः प्रजाम् ज्ञेयम् कृष्ण ग्रीवालभेदौम्यम् मनो विद्या मनोक्षण विरोध ज्ञेयो भवति तेन दशा निजत् सौम्यो ब्रह्मवत् चन्तेन कृष्णग्रीवा ज्ञेयो भवति नैवस्मादहन् निष्वेतो भवति ऋणमेवास्मिन् दधाति भवति ब्रह्मवत् न्दृन्द्रेयम् कृष्णग्रेवमालभेदुमा ज्ञेयम् कृष्णग्रेवम् पुरोधायाय स्पर्धमाना ज्ञेयो वेभ्राह्मणः सौम्यो राजन्योभिदः सौम्यमा ज्ञेयो भवदस्य च सैव ब्रह्मणो देवासुरालेषु लोकेष्पस्पर्धम् दध एतम् विष्णर्वा मनमपश्यत्यग्रस्माजी देवतायालभद ततो वैषयिमान् लोकानभ्युदयद्वैतवम् वा मनमानभेद स्पर्धमाना विष्णुदेव भू त्वेमान् लोकानभिदयति विषमानभेद विषमायि मही मे लोकाः समर्थ्या इन्द्रायमन्युपदे वनस्पदे नामम् प्रासुङ्गमानभेद सङ्ग्रामे दय्य यस्पेन भागधे येनोपधामदिषेवास्मिन् चक्षमानभेद ग्रामकामैन्द्रमेव भरुत्वन्त यस्पेन भागधे जेनोपधापदिष एवास्मि च जातान् प्रयच्छति ग्राम्येव यत् प्रत्यस्तेन मारुदस्वध्ये भवति पश्चादन्वधायिनेवा श्रीविशङ्करां बभ्रुमानभेदान्न कामसौम्यं वा अन्नो धावं प्रयच्छत्यन्नादयेभृग्भवत्येतद्वा अन्नस्य लोपगं समध्ये सौम्यं बभ्रुमानभेदयमलौ राज्याय सन्त राज्यन्मापनमे राज्यं सोममेव स्मेन भागधे येनवास्मि राज्यं प्रयच्छत्युपैन राज्यन् न मिमृर्भव एतद्वे सोमस्य रूपं समर्ध्यान्द्राय वृत्चतुरे मामभेदस्य प्रतिष्ठा काम आत्मानमेव वर्तन्ते प्रतिष्ठां गच्छतीन्द्रायाभिमा ेन प्राङ्गमान भेदयः आत्माभिहेदस्यात् पात्मा अभिमानिरेन्द्रमेवाभिमानिह यस्तेन भागधे येनोपधावधिवास्मात्मानमभिमान्यम् प्रात इन्द्राय वज्रिणे लामम् प्रासङ्गमान भेदयमलगम् राज्याय सन्तकम् राज्यन्नापणमेतिन्द्रमेव वज्रिण यस्तेन भागधे येनोपधावधिवास्मै भद्रं प्रयच्छति सरेण वज्रभूत्या इन्धुप्रैलम् राज्यं नमति न रामप्रादङ्गभवत्यैलत्वलोको नै व्यरोचत तस्मै देवा प्रायश्चेत्यमै तस्मागेतान्दशर्षभामालभन्दतये ब्रह्मवर्चस कामस्या तस्मागेतान्दशर्षभामालभेदामुमेवादित्यग्निश्वस्मिन् ब्रह्मवर्चसन्द्रह्मवर्चस्येव भवति वसन्ता प्रातस्त्री ललामानालभेदग्रीष्मे मध्यं दिने त्रीं श्रीपृष्ठान् शरद्यपराह्णे त्रीं श्रीवारान्त्रीणि वादित्यस्य ते जागुंसि वसन्ता प्रातग्रेष्मे मध्यं दिने शरद्यपराह्णे यावन् देव ते जागुंषिताह्ण्येवा वरुन्धे त्रयस्त्रया लभ्यन्ते अभिपूर्वमेवास्मिन् ते जोदधावत्सरन् वै ब्रह्मवर्चसस्य प्रतासंवत्सर एवास्मै ब्रह्मवर्चसं प्रयच्छति ब्रह्मवर्चस्येव भवति संवत्सरस्य परस्तात् प्राजापत्यङ्क्रुमालभेद प्रजापतिः सर्वा देवता देवता स्वेव प्रतिष्ठति यदिभीयाद्दुष्टमिमा भविष्यामेति सौम्या वै देवतया पुरुष पौष्णा पशमस्मयैवास्मै देवतया पशुभ्योति नतुश्चर्मा भवति देवाश्च वै यमश्चास्मिन् लोके दश यमो देवानामिन्द्रियम् वीर्यमयुवधरध्यमस्य यमत्वन्ते देवानमन्यन्त यमो बालिरमभो यद्भयज्ञस्मै दिते प्रजापतिमुपाधाभन् त्मन मुक्षवशौ निरमिमेधते देवा वैष्टावरुणे भसामानभन्तैन्द्रमुक्षाणं तं वरुणेनैव ग्राहयित्वा विष्णुनाहे प्राणुदन्तैन्द्रेणैवास्येन्द्रियमव्यञ्जकयोभ्यादुर्व्यभास्यास्पर्धमाना वैष्टावरुणे भषा मानभेदैन्द्रमुक्षाणं वरुणेनैव भ्रातुर्यं ग्राहयित्वा ्रा भवन्तं वृत्रा हदर्भोगे रचिनात्तस्य वृत्रस्य चेलशतोदायन्ता वैदे भवन्तासामशभो जघनेनो दैत्यमिन्द्रो यत्सौ मन्यतयो वा विममानभयुच्यता ज्ञेयं कृष्णग्रीवमानभजैन्द्रमृषभं तस्याग्निदेव स्वेन भागधे येनोपसदष्टो तथा वृत्तस्य भोगानप्यदह जैन्द्रेणेन्द्रियमात्मन्न धाप् गृहीतस्यात् स ज्ञेयं कृष्णग्रीवमानभे जैन्द्रमृभमग्निरेणास्य स्वेन हत्यैन्द्रेणेन्द्रियमात्मन्धत्ते मुच्यते पात्मनो भवत्येव्या वा पृथिव्याम् धेनुमानभे सद्योगपरुध्वनयोर्हि वागे प्रचक्षितो वा पृथिवी येन स्वेन भागधे येनोपधाव तिष्ठाङ्गमयदप्रत्येपतिष्ठति वर्यारिणी भवति वर्याये वश्चेतस्य राष्ट्रयोज्योगवरुद्धः समृद्धे वायव्यं वत्समानभेदवायुर्वानयोर्वत्स इमेवा एतस्मै भागधे नोपधापजिषगे वा स्ना इमे नो नास्तुमन्दिभुञ्जत्तेनम् विडुपतिष्ठते इन्द्राफलस्य विलमपो नासयमुत्तमः पशुराधेत् तम् पृष्ठम् प्रति सङ्गृत्यो दक्षिदत्तगम् सहस्रं पशुवो नोदायान् सर्वोन्नतो पशुनवरुन्धे यदा सहस्रम् पशून् प्रावे मनमालभेदेतस्मिन् वैतत्सहस्रमभ्यतिष्ठक्तस्मादेश वा मनः समेष पशुभ्येन प्रजा चभ्यप्रतिष्ठान्तसहस्रम् पशून् प्राप्तमित्याह अहोरान्येव सहस्रकम् सम्पाद्यालभेत पशवो वा अहोरा णि वशोमेव प्रजातान्तमयत्योषधीभ्यो मेह कमालभेद प्रजाकामवोषध यो वालं प्रजायै परिपाधन्ते योऽलं प्रजायेतं प्रजान्त खलु वा येतस्येशोगमपिभ्यन्ति या मेहद्भवत्योषधेरेवस्मै स्वाद्योने प्रजान् ोषधयो सत्पुरुषाभेवास्मासति तस्मादाहुर्यश्चैव नापस्त्वामाशस्तद्दधीत्यैन्द्रेकं सोतवशापालभेदूति कामो जातो वाघेशयो सम्भोजन्न प्राप्नोदीन्द्रं खलु वाघेशासो भवतीन्द्रमे ना ोत्वा साक्षादेवेन्द्रियमवरुन्धयेन्द्राज्ञम् पुनरुदया तृतीयात् पुरुषात् स्वमन्नपिच्छिन्नो वागे तस्य सोमवे योग्राह्मणः सन्नादियात् पुरुषात् समन्न विपदीन्द्राग्नि एव त्या ज्ञेयो वै ब्राह्मण स्वामेव देवतामनुसन्तनोति पुनच्छ्रष्टो भवति पुनर्छृष्टयि भक्त्येतस्य सोमपीठस्वर्ध्ये ब्राह्मण स्वत्यन्तो ब्रह्मणस्पतिमेव तस्मादेवैनमादिष्टदिता जगात्तिमाच्छदितो परो भवति क्षुदर्वागे लक्ष्मीयत्तो परः समध्यै भवति लग्रो वै श्वो वज्रमेवास्मै ृहस्पत्यगुंस पृष्ठमानभेद ग्राम कामो यः कामयेत पृष्ठगुंसमानानागच्छामि बृहस्पतिमेव स्वेन भागध येनोपधावय स देवैनम् पृष्ठगुंसमानानाङ्करोति ग्राम्ये भवति भवति पारृहस्पत्योके देवतया समर्थ्यै पौष्णज्ञ श्याममानभेदान्न कामाण्डम् वै भूषाभूषणमेव स्वेन भागध येनोप धाम दिश एव स्मान्नं प्रयच्छत्यन्नाद एव भवति श्यामो भवत्येतद्वान्नस्त्ररूपकं समृद्धि मारुतम् वृष्टिमानभेतान्न कामोऽ मरुतो मरुत एव स्पेन भागधेमोपधामदिशगेव स्मान्नं प्रयच्छन् यन्नाद एव भवति प्रत्युद्भवत्येतद्वान्नस्तरूपकं समृद्ध्या इन्द्रमरुणमानभेदेन्द्रियकाम इन्द्रमेव स्पेन ै प्रसवानामीशेषा कथे येनोपधापति स गेवास्मै शनिं प्रसुवधितारकामास्मै प्रजा भवन्त्यस्तो भवति सा ैवैश्वदेवम् बहुरूपमान भेदा वैश्वदेवं वानेव देवान् स्वेन भागधे येनोपधावस्मान्नम् प्रयच्छन्त्यम् नादेव भवति बहुरूप भवति बहु रूपाग्यन्न कुन्दमध्ये ग्रामकामो वैश्वदेवा वैधजाता विष्मानेव देवान् स्वेन भागधे स्मै सातान् प्रयच्छन्ति ग्राम्येव भवति बहुलोक भवति बहुदे केणसमध्ये प्राजापत्यन्तो परमानभेदयस्यानाज्ञातमिभज्यो गामये प्राजापत्यो वै पुरुष प्रजापतिः खलु वेदस्तवेदयस्यानाज्ञातमिभज्यो गामयति प्रजापतिमेव स्वेन भागधयधामृधेवैनन्तस्मात् श्रामान्मुञ्चलितो परो भवति प्राजापत्यो ख्येधेवतया समध्यै टक्कारो वेगाय क्रिये शिरोक्षि दत्तश्रेरसः पराप दत्तम् बृहस्पतिरुपागृह्णा सा पृष्ठावशाभवद्योद्विधेयः पराप दत्तम् मित्रावरुणामुपागृह्णे तांसाद्योपावशाभ्यस्त्रेयः पराप ृष्ठा माम्रह्मो दिशगेवास्मिन् ब्रह्मवर्त्यसन्दशा तिषन्दारेण खलु वै ब्रह्मवत्य सञ्चन्दसा मे वरसेन रसं ब्रह्मवत्यसमवरुन्धे मेत्रावरुणेन्द्रियोपामानभेदवृष्टिकामो मैत्रं वा अहर्वारुणेरात्रिरहोरात्राभ्यां खलु वै पर्जन्या वर्षसि मित्रावरुणा वेवा स्वाहोरात्राभ्याम् पर्जन्यं वर्षयतश्छन्दसाम्बा खलुवे वृष्टि नरसं वृष्टिमवरुन्धे मैत्रावरुणेन्द्रो वा मानभेद प्रजागामो मैत्रं वाहर्वारुणे रात्रिरहोरात्राभ्या खलु वे प्रजाः प्रजायन्ते मित्रावरुणा वेस्वेन भागधे येनापथापजितामेवास्माहोरात्राभ्याम् वे प्रजां प्रजनयदच्छन्द प्रजा ेषुरसौर्य प्रसारदय खलु वै प्रजा छन्ददा मे वरसे नरसं प्रजावरुन्धे भैश्वदेवी बहुलोपामानभेतान्न कामो भैश्वदेवं वा अन्नम् विश्वानेव देवान् स्वेन भागधे येनोपधामजितये वा प्रयच्छन् यन्नाथ एव भवसारदयैव खलु वा अन्नञ्च मे वरसे नरसमन्नवरुन्धे ीं बहुरोपमानभेन ग्रामगामो वैश्वदेवा वैष जाता विश्वानेव देवान् स्वेन भागे येनोपधापदितयेवास्मेच्छन्ति ग्राम्येव भवति छन्दसां यद्वसारु वैष जातां सजातानवन्धे बाहस्पत्यमुक्षभजमानभेन ब्रह्मत्यस गामो बृहस्पति ैनापधामधि स वे महास्मिन् ब्रह्मवर्चन्द्रह्मवर्चस्येव भवन्ध्रे रौद्रे गुण् मानभेदाभिचरं ्येष्ठ्योयो भवति वद्रोपे वज्रमेवास्मै प्रहरिहमयम् बलिहश्रेवेनम् वैभेदग युद्धोऽभिरेवनम् दित्योऽनव्यरोचर तस्मै देवाः प्रायश्चित्य मेच्छन्दस्माघेताकुम् सौरे यश्मेताम् भषामालभन्दतगेवास्मिन् भुजपदधर्यो ब्रह्मवच्छामस्यागेताकुम्सौरेज्मेताम् भजामालभेदागमेवादित्यग्रस्वेणभागे येन सगेवास्मिन् ब्रह्मवच्चथन्दधा ब्रह्मवत्यस्येव भवति ैव्राहयित्वाभ्रजर्ण्ये भवत्ये ब्रह्मणाज्रमेश्व ेवैष्णवं वा यज्ञो नापनमेत्येवस्मै यज्ञं प्रयच्छत्युपै नै यज्ञो नैष्णवेषासम्यै स्वाष्ट्रमैवमालभेदपशुगा हस्तष्टावे पशूनां मिथुना ेन भागधे येनोपधावध एवास्मै पुशोन्मिथुनान् प्रजनयति प्रजाहि वा येतस्मिन् प्रथभः प्रविष्टाधेशपुभान् सन्वटव साक्षादेव प्रजाम् पशोनवरुन्धे मैत्रज्ञ श्वेतमानभेदसङ्ग्रामे संयत्रे समयकामो मित्रमेव स्वेन भागधे येनोपधावधिश एैनं मित्रेण सन्नयति विशालो यत्ते मैनम् प्राजाभक्त्यम् कृष्णमालभेन वृष्ट्या प्रजापतिर्वे वृष्ट्यायीश प्रजापतिमेव स्मेन भागधे येन प्रधापति स एवास्मै पर्जन्यम् वर्षयति कृष्णो भवत्तेजद्वै वृष्ट्ये रूपकम् रूपेणैव वृष्टिमवरुन्धे सबलो भवति विद्युतमेवास्मै जनयित्वा वर्षयत्य वा शृङ्गो भवति वृष्टिमेवास्मै नियच्छति वरुणगं सुषुभानमन्नाद्यन्नोपानमत्सरेणां वारुणे कृष्णाम् भामभस्येतमन्नाद्यमुपानमद्यबलमन्नाद्य सन्तमन्नाद्यन्नोपणमेत्सगेताम् वारुणे कृष्णाम् वशामालभेदवरुणमेव स्पेन भागे नोपधामन्नम् प्रयच्छत्यन्नादेव भवति कृष्णा भवति वारुणे े मैत्रज्ञ श्वेतमानभेदवारुणम् विष्टमपाञ्चौषधीनाञ्च सन्धावन्नकामो मैत्रे वाुणेरापोपाञ्च वामो मित्रावरुणा वेदैर्योपधावनादेवनफल उभयस्या दे दे क्षा देवैपाुलयधीतान्दन्तां दे दे मिथुने पश्चन्दस्याधयन्तामश्विना ब्रूता योर्वावेशामे तस्याम् वदध्वनिवाश्विना देवा भवद्यः पुष्पि नाम स्यात्सजेतामाश्विनीम् वदामानभेदाश्विनामेव स्वेन भागधे येनापधावजितामेविम् धः पुष्यज ्राह्नः सोमम् पिबाधेदश्विनो वै देवानामोपष्टामपीठम् प्राप्नुतामश्विना वेदस्तदेवतायोगप्राः सोमम् पिबाधत्यश्विना वेदस्ते न भागेनोपधामदिता वेवास्मै सोमपीठम् प्रयच्छ लघु वै नगम् स्वामपीठो न मेद्धूम्भवति धूम् बालवहन्तिमो भवति मुखतगेवास्पिन्ते चो तथादि वायव्यङ्गो मृगमालभेदयमजग्भिवायुं समभिषगुं स यजपूता वा ये वा गच्छदयजग्भिवागुं समभिजगुं सन्धिनेशग्राम्यः प्रशुर्नारण्यो यो मृगो नेमेशग्रामे नारण्ये यमजग्भिवागुं समभिजगुं सन्ति वायर्वै देवानाम् पवित्रम् वायमेव स्पेन भागधेजेनोपधामधिषयवै एतस्मै व्युच्छन्ते व्युच्छति तमःप्पात्मानम् प्रविशति यस्या स्मेस्य माने सौर्यो नाविर्भवति सौर्यम् बहुरूपमानभेदापमेवा वित्यद्युस्त्वेन भागधे येनपधापति स एवास्मात्तमप्पात्मानमपहन्ति प्रवेच्यस्मै व्युक्षन्ते व्युच्छत्य दिव्चन्द पदमप् आत्मानगम्हते इन्द्रम् वा विश्वन्द्रन्न मरुतो यद्धवो दिवो यावशन्मष्न्द्रकम् सहमगम् हवामहेगुम् वामुजगम् सुकृतम् दे व्यञ्जनम् अग्निम् मित्रम् वरुणकम् सातगे भगव्या वातः स्वस्थे अमत्त्वनः परिवावः भवत्प्रवातो अवाम् न्तु देवाः नाम भुवेणाः ना आयत्र मन्मरतो वावशालाः श्रिरसेकम् भानुभिस्सम् मिविक्ष्येते रष्टभिस्तादयः एवाशीमन्त युष्मिनो अभीरवो विद्रे प्रियस्य मारुदस्य धाम्नः अर्ण्यप्रथमासुभिर्नाद्रेक्ष्यरुत्मनः वरुणस्तकं शिषा तु सन्ना देवामसुभिरः सोमस्तनोभिरुद्र्याभिः देवा े देवाः समनसो भवन्तो कुत्रान्तश्चेद्यमिन्धे जनयन्ति जन्तवः भव्यामानुषाणाम् उतद्यम्नस्य सुन्दमादित्या सोभवतामृणयन्तः आबोर्वागेषु मगर्वम्भोश्चिद्यामनि शुचिरवः सोऽयमसादभ्रमुपक्षयति वृद्धवयाः सुवीरः न चष्टाम् ह्यन्त्यानाम् भवति प्रणेतौ धारयन्त आदित्या सोदृवा विश्वस्य भुवनस्य गोपाः दीर्घाधियोक्षमाणा सुवानुश्रियमाना ऋणानि ृदद्यो त्रेण वितथे अन्तरेहादित्यामहित्रियागम् अवहादित्यादिशामहे स्मृणीकालम् अभिष्टये न दक्षिणा विचकितेण सव्यालप्रातेनमादित्या नोतपश्च ्याचिद्युष्माचीतो अभयम् ज्योतिरस्या आदित्या नामवसा नूतनेन स क्षेमहिशर्म अनाघास्त्वे अतिदित्वे दुराधवन्त तत्वाया सत्त्वायामि ब्रह्मणा वन्दमानस्तदास्ते हविः अयेणमानो वरुणेहोभ्युहृदगुम् समानाय प्रमोषे